गर्गसंहिता खण्डम् वन् गोलोकखण्डम् अध्यायम् फिफ्टीन् प्रेङ्खेहजिम् कनकरत्नमये श्यामं श्यामम् शिशुम् जनमनोहरमन्दहासम् दृष्ट्यार्तिहारि मषिबिन्दुधरं यशोदास्वाङ्गे चकारधृत पज्जलपद्मनेत्रं पादं पिबन्तमदिचलमद्भुदाङ्गं वक्त्रायैर्विनीलनवकोमलकेशबन्धैः श्रीमन् नृकेशरिनखस्फुरदर्धर्थ स्फुरदरार्थचन्द्रम् तं तालयन्त्यधिकृणामुदमापगोपी बालस्य पितपयः सो नृपजृम्भितस्य तत्त्वानि चास्य वदने सकले विराजन् मादासुराधिपमुखै प्रयुतं च सर्वं दृष्ट्वा परं भयमवाप निमीलिताक्षी राजन परस्य तमस्य साक्षा कृष्णस्य विश्वमखिलं कपडेन सहि नष्टस्मृदिपुनरभूत् स्वत्सुसे स्वत्सुते कृणार्था किं वर्णयामि सुतपो बहुनन्दपत्न्याः श्रीबहुलाश्व उवाच नन्दो यशोदया सार्गं किं चकार तपोमहं येन श्रीकृष्णचन्द्रोऽपि पुत्रीभूतो बभूवः श्रीनारद उवाच अष्टानां वैवसूनां च द्रोणो मुख्यो धरापतिः अनपत्यो विष्णुभक्तो देवराज्यं चकारः ये कदा पुत्रकाङ्क्षी च नृप मन्दराद्रिं धरया भार्यया सह कन्दमूलफलाहारौ तदपर्णाशनौ ततः जलभक्षौ तदस्तौ तु निर्जलौ निर्जने स्थितौ वर्षाणामर्बुदे यादे तपस्तपदोर्द्वयोः ब्रह्मा प्रसन्नस्तावेत्यवरम् ब्रूहीत्युवाचः वल्मीकान्यर्गदो द्रोणोदारया भर्यया सह भार्यया सह न त्वाम् विधिम् च सम्भोज्य हर्षिदप्राहतम् प्रभुम् श्रीद्रोण उवाच परिपूर्णतमे कृष्णे पुत्री भूदे जनार्दने भक्तिस्यादावयोर्ब्रह्मन् सतदं प्रेमलक्षणा ययाञ्जः सा तरं दुस्तरं भव सागरं नान्यं वरं वाञ्छितं स्यादावयोस्तपतोर्विधे श्रीब्रह्मोवाच युवाभ्यं याजितं यन्मे दुर्घटं दुर्लभम् वरम् तथाभिभूयात्सफलम् युवयोरन्यजन्मनि श्रीनारद उवाच द्रोणो नन्दो भवद्भूमौ यशोदासाधरा स्मृता कृष्णो ब्रह्मवचः कर्तुम् प्राप्तो कोशे पितुः पुराद शुद्धाखण्डात् परम् मिष्टम् श्रीकृष्णचरितम् शुभम् गन्धमादनशृङ्गे वै नारायणमुखाच्छ्रुतम् कृपया च कृतार्थोऽहम् नरनारायणस्य च मया तुभ्यम् च कथितम् किम् भूय श्रोतुमिच्छसि श्रीबहुलाश्व उवाच नन्दगेहे हरिःसाक्षाच्चिशुरूपः सनातनः किं चकारबलेनापि तन्मे ब्रूहि महामुने श्रीनारद उवाच एकदाशिष्यसहोदो गर्गाचार्यो महामुनिः शौरिणानोदितः साक्षादाययौ नन्द मन्दिरम् नन्दः सम्पूज्य विधिवत्पाद्याद्याैर्मुनिसप्तमम् तदप्रदक्षिणीकृत्य साष्टाङ्गम् प्रणनामः श्रीनन्द उवाच अद्य न पितरो देवा सन्तुष्ट अग्नयश्च नः पवित्रम् मन्दिरम् जातं युष्मचरणरेणुभिः मत्पुत्रनामकरणम् कुरु कुरुद्विजमहामुने पुण्यैस्तीर्थैश्च दुष्प्राप्यम् भवदागमनं प्रभो श्रीगर्ग उवाच ते पुत्रनामकरणम् करिष्यामि नसंशयः संशयः पूर्ववार्ताम् गदिष्यामि गच्छनन्तरः स्थलम् श्रीनारद उवाच उद्धाप्य गर्गो नंदे नालाभ्याशोदया गोब्रज गर्नाम चकार संपूज्य गणनादी ग्रहा संशोध्य यद नम दम प्राह प्रसन्ना गर्गाचार्यो महामुन रोहिणी नन्दनस्यास्य नामोच्चारं शृणुष्व च रमन्दे योगिनो सर्वत्र रमतीति वा गुणैश्च रमयन् रामं विदुः परे गर्भः सङ्कर्षणादस्य सङ्घर्षण शेषम् बलाधिक्याद् बलं विदुः स्वपुत्रस्यापि नामानि शृणुनन्दह्यतन्त्रितः सद्यप्राणि पवित्राणि जगदा मङ्गलानि च ककारकमलाकान्तऋकारो राम इत्यपि षकारषड्गुणपतिः श्वेदद्वीपनिवासकृद नकारो कारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक विसर्गौ च तथा ह्येदौ नरनारायणावृषि सम्प्रलीनाश्च षट्पूर्णा यस्मिन् शुद्धे महात्मनि परिपूर्णतमे साक्षात्तेन कृष्णप्रकीर्तितः शुक्लोरकृतस्तथा पीतो वर्णोऽस्यानुयुगम् धृतः द्वापरान् दे कले रादौ बालोऽयं कृष्णतां गदः तस्मात् कृष्ण इति ख्यातो नाम्नायम् नन्दनन्दनः वसवश्चेन्द्रियाणीति तदेवश्चित्तमेव हि तस्मिन्नेष्टते तस्मिन् यश्चेष्टदे सोऽपि वासुदेव वृषभानुसुता राधा याजादा कीर्ति कीर्तिमन्दिरे तस्यापदिरयं साक्षात् तेन राधापदि स्मृतः परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदि गोलोके धाम् निराजते सोऽयम् तव शिष्युर्जातो भारावतरणाय च कंसादीनां वधार्थाय भक्तानां रक्षणाय च अनन्तान्यस्य नामानि वेदगुह्यानि भारत लीलाभिश्च भविष्यन्ति तत्कर्मसु न विस्मयः अहोभाग्यं तु तेनन्तसाक्षात् श्रीपुरुषोत्तमः त्वद्गृहे वर्धमानोऽयं शिशुरूपः परात्परः इत्युक्त्वा धगदे गर्गे स्वात्मानं पूर्णमाशिषाम् मेने प्रमुदितपत्न्यानन्दराजो महामतिः अर्थ गर्गो ज्ञानिवरोज्ञानदो मुनिसप्तमः कालिं दीतीरशोभाड्यां वृषभानुपुरं गतः छत्रेण शोभितं विप्रां द्वितीयमिव वासवं दम्डेन राजितं साक्षाद्धर्मराजमिव स्थितं तेजसाद्योदितदिश्यं साक्षात् सूर्यमिवापरं पुस्तकी पद्मजम् शोभितम् शुक्लवासोभिर्देवम् देवं स्थितम् तं दृष्ट्वा मुनिशर्दूलम् सहसोद्धाय सादरम् प्रणम्य शिरःसा सद्यः सम्मुखोऽभूत् कृताञ्जलिः मुनिम् च पीठके स्थाप्य पाद्याद्यैरुपचारवित ी पूजयामासविधिवच्छ्रीगर्गं ज्ञानिनां वरं तदप्रदक्षिणीकृत्य वृषभानुवरो महान् श्रीवृषभानुरुवाच सतां पर्यटनं शान्तं गृहिणां शांदये स्मृतम् नृणामं तस्तमोहारी साधुरेव न भास्करः कीर्तिभूता वयं गोपाजादस्त्वद्दर्शनप्रभो तीर्थानि तीर्थीकुर्वन्दित्वा दृश्य साधवः क्षितौ हे मुने राधिका नाम कन्या मे कस्मै वराय दादव्यावद त्वं मे सुनिश्चितं त्वं पर्यडन्नर्क इव त्रिलोकीं दिव्यदर्शनः वरो नया समयो वै तस्मै दास्यामि कन्याकाम् श्रीनारद उवाच हस्तं गृहीत्वा श्रीगर्गो वृषभानोर्महामुनिः जगामयमुनातीरं निर्जनं सुन्दरस्थलं कालिन्दी जलकल्लोककोलाहलसमाकुलं का तत्रोपवेश्य गोपेशं मुनीन्द्रः प्राह धर्मविद श्रीगर्ग उवाच हे गोपगुप्तमाख्यानं कथनीयं चत्वया परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदिर्गो लोकेश परात्परः तस्मात् परोपरो नास्ति जातो नं दगृहे पदिः श्रीवृषभानुरुवाच अहो भाग्यमहो भाग्यं नस्यापि महामुने श्रीकृष्णस्यावतारस्य सर्वं सर्वंत्वं वदकारणम् श्रीगर्ग उवाच भुवो भारावताराय कंसादीनां वधाय च ब्रह्मणा प्राधितकृष्णो बभूव जगदीतले श्रीकृष्णपट्टराज्ञीया गोलोकेराधिकाभिधा त्वद्गृहे सापि सञ्जाता त्वम् न जानासि ताम् पराम् श्रीनारद उवाच तदा प्रहर्षितो गोपो वृषभानुःसुविस्मितः कलावधीम् समाहूय तया सार्धम् विचार्य च राधाकृष्णानुभवम् च ज्ञात्वा गोपवरः परः आनन्दाश्रुकलां मुञ्जन् पुनराह महामुनिं श्रीवृषभानुरुवाच तस्मै दास्यामि हे ब्रह्मन् कन्यां कमललोचनां त्वया पन्था दर्शितो मे त्वया कार्योयमुद्वफ श्री गर्ग उवाचा न कारयिष्यामि विवाहमनयोर्नृप तयोर्विवाहो भविता भाण्डीरे यमुनातडे वृन्दावनसमीपे जनर्जने सुन्दरस्थले परमेष्टि समागत्य विवाहम् कारयिष्यति तस्माद्राधां गोपवर विद्यार्थाङ्गीम् वरस्य लोके लोके चूडामणिः साक्षाद्राज्ञीं गोलोकमन्दिरे यूयं सर्वेऽपि गोपाला गोलोकादा कदा भुवि तथा गोपीगणागोपा गोलोके राधिकेच्छया यद्दर्शनं दुर्लभमेव दुर्घटं देवैश्च यज्ञैर्न च जन्मभिः किमु सविग्रहां तव मन्दिराजिरे लक्ष्यन्ति गुप्तां बहु गोपगोपिकाः श्रीनारद उवाच तदा च विस्मितौ राजन् दम्पती स्पर्शितौ परं राधाकृष्णप्रभवं च श्रुत्वा श्रीगर्गमूचदुः दम्पती ऊचदुः राधाशब्दस्य हे ब्रह्मन् व्याख्यानम् वद तत्त्वदः त्वत्तो न संश यच्चेत्ता कोऽपि भूमौ महामुने श्रीगर्ग उवाच सामवेदस्य पर्वदे गन्धमादनपर्वदे शिष्येणाभिमय तत्र नारायणमुखाच्छ्रुदम् रमया दुरकारस्य दाकारस्त्वाधिगोपिका दकारो धरया हि स्यादाकारो विरजा नदी श्रीकृष्णस्य परस्यापि च दुग्धा तेजसो भवदलीलाभूश्रीश्च विरजा च दस्रपत्न्य एवहि सम्प्रलीनाश्च ता सर्वाराधायाम् कुम् मन्दिरे परिपूर्णतमाम् राधाम् तस्मादाहुर्मनीषिणः श्रीनारद उवाच राधाकृष्णेदि हे गोप ये जपन्ति पुनः पुनः चतुष्पदार्थम् किं तेषां साक्षात् कृष्णोऽपि लभ्यते तदादिविस्मितो राजन्वृषभानुप्रियायुधः राधा राधाकृष्णप्रभावं तं ज्ञात्वा नन्दमयोह्यभूद इद्धं गर्गो ज्ञानिवरपूजितो वृषभानुना जगामस्वगृहम् साक्षान् मुनीन्द्रः सर्ववित् कविः इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे नन्दपत्न्याः विश्वरूपदर्शनम् श्रीकृष्णनामकरणम् नाम, नाम पञ्चदशोऽध्यायः ओम् अध्यायम् सिक्स्टीन् नारद उवाच गाश्चारयन्नन्दनमङ्गदेशे संलालयन् दूरतमम् सकाशात् कलिन्दजादीरसमीरकम्पिदं नन्दोऽपि भाण्डीरवनं जगाम कृष्णेच्छया वेकतरोधवदो खनैरभून्मेदुरमम्बरं च तमालनीपद्रुमपल्लवैश्च पदद्भिरेजद्भिरतीव भाक्कौ तदान्धकारे महदिप्रजाते बालेरुदत्यङ्गगदेदिभिदे नन्दो भयं प्रापशिचुं स बिभ्रद्धरिं परेशं शरणं जगामा तदैव कोट्यर्क समूहदीप्तिरागच्छति वा चलति दिशासु बभूव तस्यां वृषभानुपुत्रीम् ददर्श राधां नवनन्दराजः कोडीन्दु बिम्बद्युदिमादधानां नीलाम्बरां सुन्दरमादिवर्णां मञ्जीरधीरध्वनि नूपुराणामाबिभ्रदीं शब्दमदीवमञ्जुम् काञ्ची कलाकङ्कणशब्दमिश्राम् आराङ्गुलीयाङ्गदविस्फुरन्तीम् श्रीनासिकामौक्तिकहंसिकीभिः श्रीकण्ठचूडामणिकुण्डलाढ्याम् तत्तेजः साधर्षिद आशुनन्दो नत्वाधतामहकृताञ्जलिः सन् अयं तु साक्षात् पुरुषोत्तमस्त्वं प्रियास्य मुख्यासि सदैव राधे गुप्तं त्विदं गर्गमुखेन वेत्मि गृहाणराधे निजनाधमङ्कादयनं गृहं प्रापयमेखभिदं वदामि प्रकृतेर प्रकृतेर्गुणाढ्यं नमामि तुभ्यम् भुवि रक्ष यथेप्सितं सर्वजनैर्दुरापम् श्रीराधोवाच अहं प्रसन्ना तव भक्ति भवान् मद्दर्शनं दुर्लभमेव नन्द श्रीनन्द उवाच यदि प्रसन्नासि तदा भवेन्मे युवयो युवयोपदाब्जे सतां च भक्तिस्तव भक्तिभाजां सङ्गत्सदा मेधयुगे युगे, युगे च श्रीनारद उवाच तथास्तु चोक्त्वाधहरिं कराभ्यां जग्राहराधा राधा गदे धनन्दे प्रणदे व्रजेशे तदा हि भाण्डीरवनं जगाम गोलोकलोका च पुरा समागदा भूमिर्निजं स्वं वपुरा दधाना या पद्मरागाधिकचित्सुवर्णा बभूव सा तत्क्षणमेव सर्वा वृन्दावनं दिव्यवपुर्दधानं वृक्षैर्वहै कामदुखैः सहैव कलिन्दपुत्री च सुवर्णसौधैः श्रीरत्नसोपनमयी बभूव गोवर्धनो रत्नशिलामयोऽभूत् सुवर्णशृङ्गैपरिदस्फुरद्भिः मत्तालिभिर्निर्जर सुन्दरीभिर्धरीभिरुच्चाङ्गकरी वराजन् तदा निगुञ्जोऽनिजं वपुर्दसभायुधं प्राङ्गणदिव्यमण्डपं वसन्तमाधुर्यधरं मधुव्रतैर्मयूरपारावदकोकिलध्वनिं सुवर्णरत्नादिखित्पडैर्वृतं पदत्पदा कावलिभिर्विराजितम् रस्पुरद्भिर्भ्रमरावलीभितैर्विचर्चितम् काञ्चन चारुपङ्गजैः तदैव साक्षात् पुरुषोत्तमोत्तमो बभूव कैशोरवपुर्घनप्रभः भीताम्बरकौस्तुभरत्नभूषणो वंशीधरो मन्मथराशिमोहनः भुजनसंगृह्य हसन् प्रियां हरिर्जगाममध्ये सुविवाहमण्डपं विवाहसंभारयुधसमे कलं सदर्भमृद्वाजिखडादिमण्डितं तत्रैव सिंहासन उद्गदे वरे परस्परं सम्मिलितौ विरेजदुः परं ब्रुवं तौ मधुरं च दम्पती स्फुरप्रभौ खेजतडित्खनाविव तदं परा देववरो विधिप्रभुः समागतस्तस्य परस्य सम्मुखे नत्वा तदङ्घ्रीच्युषदी गिराभिः कृताञ्जलिश्चारु चतुर्मुखो जगौ श्रीब्रह्मोवाच अनादिमाद्यं पुरुषोत्तमोत्तमं श्रीकृष्णचन्द्रं निजभक्तवत्सलं स्वयं त्वसङ्ख्याण्डपदिं परात्परं राधापदिं त्वां शरणं व्रजाम्यहं गोलोकनाथत्वमदीवलोलो लीलावदीयं निचलोकलीला वैकुण्ठनाथोऽसि यदा त्वमेव लक्ष्मीस्तदेयम् वृषभानुजाहि त्वं रामचन्द्रो जनकात्मजेयम् भूमौ हरि त्वम् यदा तदेयम् श्रीदक्षिणास्त्रीप्रतिपत्निमुख्या त्वम् नारसिंहोऽसि नारायणस्त्वम् च नरेण युक्तः तदा त्वयम् शान्तिरदीव साक्षाच्छायेव यादा च तवानुरूपा त्वम् कालो यदे माम् च विधुप्रधानाम् महान्यदात्वम् जगदङ्गुरोऽसि राधा तदेयं यदांतरात्मा यदान्तरात्मा विदितश्च दुग्भिस्तदा लक्षणरूपवृत्तिः यदा विराड्देहधरस्त्वमेव तदाखिलं वा भुवि धारणेयम् च गौरं विदिदम् द्विद्धा महस्तदैव महस्तवैव साक्षात् पुरुषोत्तमोत्तम गोलोकधामाधिपतिं परेशं परात् परं त्वां शरणं व्रजाम्यहं सदा पठेद्यो युगलस्तवं परं गोलोकधामप्रवरं प्रयाति सः इहैव सौन्दर्यसमृद्धिसिद्धयो भवन्ति तस्यापि निसर्गतः पुनः यदा युवां प्रीतियुतौ जदम्पदी परात्परौ तावनुरूपरूपितौ तथापि ता लोकव्यवहारसङ्ग्रहाद्विधिं विवाहस्य कारयाम्यहम् श्रीनारद उवाच तदा स उद्धाय विधिर्हुदाशनम् प्रज्वाल्यकुण्डे स्थितयोस्तयोः पुरः श्रुदे करग्राहविधिम् विधानतो विधाय धादासमवस्थितो भवद स वाकयामास हरिम् चराधिकाम् प्रदक्षिणम् सप्तहिरण्यरेतसः ततश्च तौ तम् प्रणमय्य वेदवित्तौ पाठयामः स च सप्तमन्त्रकम् तदोहरेर्वक्षसि राधिकायाः करं च संस्थाप्य हरे करम् पुनः श्रीराधिकाया किल पृष्ठदेशके संस्थाप्य मन्त्रांश्च राधाकराभ्यां प्रददौ च मालिकां किञ्चल्किनीं कृष्णगले लिनादिनीं हरेकराभ्यां वृषभानुजागले ततश्च वह्निं प्रणमय्य वेदविद संवासयामास सुपीडयोश्च तौ कृताञ्जली मौनयुतौ पितामहः तौ पाठयामासदुपञ्चमन्द्रकं समर्प्य राधाञ्च पिदेव कन्यकां पुष्पाणिपाणि देवा ववृषुस्तदा नृपविद्याधरीभिर्ननृदुः सुराङ्गनाः गन्धर्वविद्याधरचारणाकलम् स किह्नरा कृष्णसुमङ्गलम् जगुः मृदङ्गवीणा मुरयष्टिवेणवशङ्खानका दुन्दुभयः सतालकाः ने दुर्मुहुर्देववरैर्दिवि स्थिदैर्जयेत्यभून्मङ्गल शब्दमुच्चकैः उवाच तत्रैव विधिं हरिस्वयं यथेप्सिदम् त्वं वद विप्रदक्षिणां तदा हरिम् प्राहविधिप्रभो मे देहित्वदङ्घ्रियोर्निजभक्तिदक्षिणां तथास्तु वाक्यं वदतो विधिर्हरेः श्रीराधिकायाश्च पदद्वयं शुभं नत्वाकराभ्याम् शिरसा पुनः पुनर्जगामगे सम्प्रणदप्रहर्षितः तदो निकुञ्जेषु च दुर्विधानम् दिव्यम् मनोज्ञम् प्रियया प्रदत्तम् जखास कृष्णप्रहसन् परात्मा कृष्णेन दत्तम् क्रमुकम् च राधा तथ करेणापि करम् हरिर्गृहीत्वा जगाम जगामजल्पन्मधुरं प्रपश्यन् वृन्दावनं श्रियमुनां लताश्च श्रीमल्लता कुञ्जनिकुञ्जमध्ये निलायमानं प्रकसन्तमेव विलोक्य शाखान्तरितं च राधा जग्राहपीताम्बरमाव्रजन्ती दुद्रावराधा हरिहस्तपद्मा चङ्कारमङ्घ्र्यो प्रतिकुर्वदीकौ निलीयमाना यमुना निकुञ्जे पुनर्व्रजन्ती हरिहस्तमात्राद यथा तमालकलधौधवल्या कनो यथा चञ्चलया चकास्ति नीलोद्रिराज निकषाश्मकन्या श्रीराधयाद्यस्तुतया रमण्या श्रीरासरङ्गे जनवर्जिते परे रेमे हरीरासरसेन राधया वृन्दावने भृङ्गमयूर कूजल्लदे चरत्ये वरदीश्वरपरः श्रीराधया कृष्णहरिपरात्मा ननर्तगोवर्धनकन्दरासु मत्तालिषु प्रस्रवणै सरोभिर्विराजितासु द्युदि मल्लतासु चकारकृष्णो यमुनां समेत्य वरं विहारं वृषभानुपुत्र्या राधाकराल्लक्षदलं सपद्मम् दावन गृहीत्वा यमुना जलेषु राधा हरे पितपटं च वंशीं वेत्रं गृहीत्वा सखसा हसन्ती देही दिवंशीं वददो हरेश्च जगादराधा कमलं नु देहि तस्यै दद्धौ देववरोधपद्मम् राधा ददौ पीदत्तडं च वंशीं वेत्रं च तस्मै हरये तयोः पुनर्बभुवलीला यमुनातडेषु ततश्च भाण्डीरवने प्रियायाश्चकारशृङ्गारमलं मनोज्ञं पत्रावलीयावक कज्जलाभ्याय पुष्पाय सुरत्नायैर् व्रजगोपरत्नः हरेश्च शृङ्गारमलं प्रकर्तुं समुद्यता तत्र यदा हिराधा तदैव कृष्णस्तु बभूव बालो विहाय कैशोरवपुस्वयं हि नन्देन दत्तम् शिशुमेव यादृश्यं भूमौ लुठन्तं प्ररुदन्तमायय अरिम् विलोक्या शुरुरोधराधिका तनोषिमायाम् नु कथम् हरे मयि इद्धम् रुदन्तीम् सहसा विषण्णामाकाशवागाह तदैव राधाम् शोचम् नु राधे इह मा कुरुत्वम् भवियाहि पश्चाद श्रुत्वा धराधाहि करिम् गृहीत्वा गताशु व्रजराजपत् दत्वा जबा किल नंदपत्न उवाज च दतपथ भर्तृवाज राधा नृपनंदगहिणी धनियाधे कन्यागे, या शिशुर्मे परिरक्षिदो भया मेघावृदेव्योम्निभयादुरोवने सम्पूजिता श्लाघिता दा सद्गुणा सा सुनन्दिता श्रीवृषभानुपुत्री तदाह्यनुज्ञाप्य यशो हि जगामराधा युद्धं हरे गुप्तकथा राधाविवाहस्य सुमङ्गलावृता श्रुत्वा च यैर्वा पठिता च पाठिता तान् पापवृन्दानकथा स्पृशन्ति इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीराधिकाविवाहवर्णनं नाम षोडशोऽध्यायः ओम् अध्यायम् सेवन्टीन् श्रीनारद उवाच अथ बालौ कृष्णरामौ गौरश्यामौ मनोहरौ लीलया चक्रतुरलम् सुन्दरम् नन्दमन्दिरम् लिङ्गमाणौ च जानुभ्याम् पाणिभ्याम् सह व्रज ताल्पेन कालेन ब्रुवं तौ मधुरं ब्रजे। यशोदया च रोहिण्या लालितौ प्रोषितौ शिशु कदा विनिर्गदा वङ्गात् क्वचिदङ्गं समास्थितौ मञ्जीरकिङ्गिणीरावं कुर्वं तौ, तौ। तावितस्ततः त्रिलोकिं मोहयं तौ द्वौ मायाबालकविग्रहौ क्रीडन्तमादाय शिशुं यशोदाजिरे लुठन्तं व्रजबालकैष्ट तद्धूलिलेपावृतधूत्सराङ्गं चक्रेह्यलं प्रोक्षणमादरेण जानुद्वयाभ्यां च समं कराभ्याम् पुनर्व्रजन् प्राङ्गणमेत्य कृष्णः <प्रांकनमेत्यक्रिश्नाहा> मात्रं कदेश्ये पुनराव्रजन् सन् बभौ व्रजे केसरिबालीलः तं सर्वतो हैमनचित्रयुक्तं पिदाम्बरं कञ्चुकमादधानं स्फुरत्प्रभं रत्नमयं च मौलिं दृष्ट्वा सुदम् प्रापमुदं यशोदा बालं मुकुन्दमधिसुन्दरबालकेलिं दृष्ट्वा परं मुदमवापुरदीवगोप्यः श्रीनन्दराजव्रजमेत्य गृहं विहाय सर्वास्तु विस्मृतगृहसुखविग्रहास्ताः श्रीनन्दराजगृहकृत्रिमसिंहरूपं दृष्ट्वा व्रजन् प दृष्ट्वा व्रजन् प्रदिरवन् नृपभिरुवद्यः नीत्वा च दं निच सुदं गृह मा व्रजन्तीं गोप्यो व्रजे सकृणयाह्यवदन् यशोदां गोप्य उजुः क्रीडार्थं च फलं ह्येन मा बहि बालकेलिं दुग्धमुखं काकपक्षधरं शुभे ऊर्ध्वदन्तद्वयं जादं पूर्वं मादुलदोषदं अस्यापि माधुलो नास्ति ते सुतस्य तस्माद्दानं दुहऋतव्यं विघ्नानां न गोविप्रसुरसाधूनां छन्दसाम् पूजनं तथा श्रीनारद उवाच तदा यशोदारोहिण्यौ सुधकल्याणभेदवे वस्त्ररत्ननवान्नानां दानं नित्यं च चक्रदुः अधव्रज रामकृष्णौ बालसिंहावलोकनौ पद्भ्यां चलन्तौ कोषेषु वर्धमानौ बभूवधूः श्रीराम सुभलाद्यैश्च वयस्यायर्व्रजबालकैः यमुनासिकदेशुभ्रे लुठन्तौ सकुदूहलौ कालिन्द्युपवने श्यामैस्तमालै सखनैर्वृते कदम्बकुञ्चशोभाढ्ये चिरदूरामकेशवौ जनयन् गोपगोपीनामानन्दं बाललीलया वयस्याैश्चोरयामास नवनीदं घृतं हरिः एकदा ह्युपनं तस्य पत्नीनाम्ना प्रभावदि श्रीनन्दमन्दिरं प्राप्ता यशोदां प्राह गोपिका प्रभावत्युवाच नवनीतं दुग्धं दधितक्रं यशोमधि आवयोर्भेदरखि दत्वत्प्रसादा च भवद नाहं वदामि चानेन स्तेयं कुत्रापि शिक्षितम् शिक्षां करोषि न सुते नवनीतमुषि स्वदः यदा मया गालिप्रदानं दत्त्वायम् द्रवदि प्राङ्गणान्म प्रजाधीशस्य पुत्रोऽयम् भूत्वा स्तेयम् समाचरेत् न मया कथितम् किजिद्यचोदे तव गौरवाद श्रीनारद उवाच श्रुत्वा प्रभावदी वाक्यम् यशोदानन्दगेहिणी बालम् निर्भस्यतामाहसाम्ना प्रेम श्रीयशोद उवाच गवां कॉड्यगृहे मेस्ोसैराद्रिताचल ने दधिमुबातिशोत्र कदाचन अन गव्यं तत्समं तत्सम गृहा ष्यौ मे शिष्यौ भेदो नास्ति किञ्चित् प्रभावति नवनीतमुखं चैनमत्र त्वं ह्यानयिष्यसि तदा शिक्षां करिष्यामि भर्सनं बन्धनं तथा श्रीनारद उवाच श्रुत्वा वाक्यं तदा गोपी प्रसन्ना गृहमागदा एकदा दधि चौर्यार्थम् कृष्णस्तस्य गृहम् गतः वयस्यैर्बालकै सार्धम् पार्श्व कुड्ये गृहस्य च हस्ताब्धस्थम् सङ्गृहीत्वा शनै कृष्णो विवेशः शिख्यस्थम् घोरस्सम् दृष्ट्वा हस्ताग्राह्यम् उलूखले पीठके च गोपां स्थाप्यारुरोहतं तदभिप्रां श्युनालभ्यं गोरः संशिक्य श्रीदाम्ना सुबलेनापि दण्डेनापि तताट च भग्नभाण्डात् सर्वगव्यं बृहद् भूमौ मनोहरं जगास सबलोमर्कैर्बालकैः सह सहमाधवः भग्नम भाण्डस्वनम् श्रुत्वा प्राप्ता गोपी प्रभावदी प्रभावती पलायितेषु बालेषु जग्राहश्रीकरं हरेहे नित्वा मृषाश्रुम् भीरुम् च गच्छन्ती नन्दमन्दिरम् अग्रे नन्दम् स्थितम् दृष्ट्वा मुखे वस्त्रं चकारः हरिर्विचिन्तयन्निद्धं मादादण्डम् प्रदास्यति दधार तद्बालरूपम् स्वच्छन्दगतिरीश्वरः सा यशोदाम् समेत्याशुप्राहगोपी रुषान्विता बाण्डम् भग्नीकृतं सर्वम् मुषिधम् दध्यनेन वै यशोदा तत्सुदं वीक्ष्य हस्तं दीप्राः गोपिकां वस्त्रां तं च मुखाद् गोपी दूरीकृत्य वदां हसः अपवादो यदा देयो निर्वासं गुरु मे पराध युष्मत्पुत्रकृतं चौर्यमस्मत्पुत्रकृतं भवेद जनलज्जासमयुक्ता दूरीकृत्य मुखाम्बरं साभिप्राह निजं बालं वीक्ष्य विस्मितमानसा निष्पदस्त्वं कुदप्राप्तो व्रजसारोऽस्ति मे करे वदन्दीत्थं च दं नीत्वा निर्गदानन्दमन्दिराद यशोदारोहिणी नन्दो रामो गोपिकाः जः सुकथयं तस्ते दृष्ठो न्यायो व्रजे महान् भगवान्स्तु बहिर्विद्याम् भुक्त्वा श्रीनन्दनन्तनः प्रकसन् गोपिकाम् प्राह दृष्ठां गञ्चलेक्षणः श्रीभगवानुवाजा पुनर्मां यदि गृह्णासि कदाचित् त्वं हि गोपीके ते भर्तृरूपस्तु तदा भविष्यामि न संशयः श्रीनारद उवाच श्रुत्वा सा विस्मिता गोपी गदा गेहेधमैथिल तदा सर्वगृहे गोप्यो न गृह्णन्दि क्रिया यदि श्रीगर्गसंहिताया गोलोकखण्डे नारदबहुलाश्वसंवादे दधिस्तेयवर्णनं नाम सप्तदशोऽध्यायः 18 अध्यायम् श्री नारद श्रीनारद उवाच गोपीगृहेषु विचरन्नवनीतचौरः श्यामो मनोहरवपुर्णव पञ्चनेत्रः श्रीबालचन्द्र इव वृद्धिगदो नराणाम् चित्तम् हरन्निव चकारव्रजे च शोभाम् श्रीनन्दनन्दन मदीव चलम् गृहीत्वा गे सम् निधाय मुमुहुर्नवनन्दगोपाः सत्कन्दुकैश्च सततं परिपालयन्ते गायन्त ऊर्जितसुखान जगत्स्मरन्तः राजोवाच नवोपनं वदरे वर्षे मम अहोभाग्यं तु यशां वै ते पूर्वं क इहागताः तदा षड्वृषभानुनां कर्माणि मङ्गलानि च श्रीनारद उवाच गजश्च विमलश्रीश्रीधरो मङ्गलायनः मङ्गलो रङ्गवल्लीशो रंक देवनायकः नवनन्दाश्च कथिदा बभूवुर्गोकुले व्रजे विधिहोत्रोऽग्निभुक् साम्भश्रीकरो गोपदिश्रुतः व्रजे शक् पावनशान्त उपनन्दाप्रकीर्तिताः निदिविन्मार्गदशुक्लपदङ्गो दिव्यवाहनः गोपेष्टश्च व्रजे राजञ्जादा षड्वृषभानवः गोलोके कृष्णचन्द्रस्य निकुं जद्वारमाश्रिताः वेत्रहस्ता श्यामलाङ्गा नवनन्दाश्च ते स्मृताः निकुञ्जे कोडिशोकावस्थासाम् पालनतत्पराः वंशी मयूरपक्षाढ्या उपनन्दाश्च ते स्मृताः निकुञ्जदुर्गरक्षायाम् दण्डपाश्चरा स्थिताः षड्वा षड्वारमास्थिता षड्वै कथिता वृषभानवः श्रीकृष्णस्य चया सर्वे गोलोकादागदा भुवि तेषां प्रभावं वक्तुं हि न समर्थश्च दुर्मुखः अहं किमु वदिष्यामि तेषां भाग्यं महोदयं येषामारोहमास्थाय बालके निर्बभौ हरिः य गदा मृकृष्णेना वलीढिता यशोदा बालका प्राहुरति बालो मृदं तव बलभद्रे ज वदन्ति बलभद्रे जदति तदा सानन्दगेहिनी करे गृहीत्वा स्वसुगम्भीरुनेत्रमुवाचः श्रीयशोदा उवाच कस्मान् मृदम् भक्षितवान् महाज्ञा भवान् वयस्याश्च वदन्ति साक्षात् ज्यायान् बलोऽयम् वदति प्रसिद्धम् मा एवमर्धम् न जहादिनेष्टम् श्रीभगवानुवाच सर्वे मृषावादरधाव्रजार्भका मा धर्मया क्वापि न माधर्मया क्वापि न यदा समीचीन मनेन वाक्पदम् तदा मुखम् पश्य मदीयमञ्जसा श्रीनारद उवाच अथ कोऽपि बालकस्य पश्यन्ती सुन्दरम् मुखम् प्रसारितम् च ददृश्ये ब्रह्माण्डम् रचितम् गुणैः सप्तद्वीपान् सप्तसिन्धून् सखण्डान् स गिरीन् दृढान् दृष्ट्वा निमीलिता चि सा भूत्वा श्रीयमुना तडे बालोऽयं मे हरिसाक्षादिज्ञानमयीह्यभूत तदा जहास श्रीकृष्णो मोहयन्निवमायया यशोदा वैभवं दृष्टं न सस्मा रगदस्मृतिः इति श्रीगर्गसंहितायाम् गोलोकखण्डे नारदबहुलाश्वसंवादे ब्रह्माण्डदर्शनम् नाम अष्टादशोऽध्यायः ओम् अध्यायम् श्री नारद उवाच एकदा गोकुले गोप्यो ममं दुर्दधि सर्वतः गृहे गृहे प्रगा यन्द्यो गोपालचरिदम्बरं यशोदाभिसमुद्धाय प्रादश्रीनन्दमन्दिरे भाण्डेरायं विनिक्षिप्य मम दधिसुन्दरी मञ्जीररावं संकुर्वन् बालश्रीनन्दनं दनः ननर्तनवनीतार्थम् रायशब्दकुतूहलाद बालकेलिर्बभौ नृत्यन् सुनं सुनन् सुनादिकिङ्गिणी सङ्गचङ्गारं कारयन्मुहुः हैयङ्गवीनं सददं नवीनं याचन् समाधुर्मधुरं ब्रुवन् सः आदाह्य हस्तेश्म सुदं रुषा सुधिर्बिभेदकृष्णो दधि मन्धपात्रं पलायमानं स्वसुधं यशोदा प्रभावदी प्रापन हस्तमात्राद योगीश्वराणामपि यो दुराभकथं समादुर्ग्रहणे प्रयादि तदा विभक्तेषु प्रदर्शिता श्री हरिणा नृपेश्वर बालं गृहीत्वा स्वसुधं यशोमदी बबन्धरज्ज्वाधरुषा ह्युलूकले आदाय यद्यद् बहुधा म तत्तत् स्वल्पं प्रभूतं स्वसुधे यशोदा गुणैर्न बद्धप्रकृते परो यः कथं स बद्धो भवति कदां न यदा यशोदागतबन्धने च खिन्नानिषण्णा नृपखिन्नमानसा आसीत् तदा इयं कृपया स्वबन्धे स्वं क्षन्दया न स्ववशोऽपि कृष्णः यशप्रसादो न हि न ज्ञानिनां कर्मधियाम् कुतः पुनः माधुर्यथा भूनृपयेषु नमाधवः व्यर्धाद्भक्तिमलम् न माधवः तदैव गोप्यस्तु समागतास्त्वरम् दृष्ट्वा ध भग्नं उलूकले बद्धमधीवदामभिर्भीतं शिशुम् वीक्ष्य जगुर् गृणातुराः गोप्य उजुः अस्मद्गृहेषु पात्राणि भिनति सददं शिशुः तदप्यनम्नो वदाम कारुण्यानन्दगेहिनि गतव्यधेह्यकरुणे करुणे यशोदेहे व्रजेश्वरि यष्ट्या निर्भत्सिदो बालत्वया बद्धो कटक्षयाद श्री नारद उवाच इत्युक्तायां यशोदायाम् व्यग्रायाम् गृहकर्मसु कर्षन्नुलूखलम् कृष्णो बालै श्रीयमुनां ययौ तत्तडे च महावृक्षौ पुराणौ यमलार्जुनौ तयोर्मध्ये गतकृष्णो कश्चन दामोदरप्रभुः च कर्षसखसा कृष्णस्तिर्यगदमुलूखलं कर्षेणेन कर्षणेन समूलौ द्वौ पेदो दुर्भूमिमण्डले पादनेनाभि शब्दो भूत्प्रचण्डो वज्रपादवद विनिर्गतौ च वृक्षाभ्यां देवौ द्वावेधसोऽग्निवद दमोदरं प्र परिक्रम्यपादौ स्पृष्टौ स्वमावलिना कृताञ्जलीकरिं नत्वात्तौ दौ तत्सम्मुखे स्थितौ देवावुचदुः आवामुक्तौ ब्रह्मदण्ड सद्यस्तेऽच्युददर्शनाद मा भूते निजभक्तानां जग जगन्मङ्गलशीलिने दामोदराय कृष्णाय गोविन्दाय नमो नमः श्रीनारद उवाच इति न त्वा हरिं तौ द्वा उदीचीं च दिशं गतौ तदैव ख्यागत सर्वे नन्दाद्याभयकादराः कथं वृक्षौ प्रपतितौ विना वादं वदताश्युतदा बाला ऊजु सर्वे व्रचौकसः बाला ऊजुः अनेन पादितौ वृक्षौ ताभ्यां द्वौ पुरुषौ स्थितौ यनं नत्वा गदावत्यता उदीच्यां स्फुरत्प्रभौ श्रीनारद उवाच इति श्रुत्वा वचस्तेषां नदे श्रद्धभिरे तदः मुमोच नन्दस्वं बालं दाम्ना बद्धमुलूकले संलालयन् स्वां कदेशे समाक्रायशिशुं नृप निर्भस्य भामिनीं नन्दो विप्रभ्यो घोशतं ददौ श्रीबहुलाश्व उवाच काविमौ पुरुषौ दिव्यौ वददेवर्षिसत्तम केन दोषेण वृक्षत्वं प्रापितौ यमलार्जुनौ श्रीनारद उवाच नलकूबरमणिग्रीवौ राजराजसुतौ परौ जग्मदुर्नन्दनवनं मन्दागिन्यास्तडे स्थितौ अप्सरोभिर्गीयमानौ चरदुर्गधवाससौ वारुणीमदिरामत्तौ युवानौ द्रव्यदर्पितौ चिदाचिद्देवलो नाम मुनीन्द्रो वेदपारगः नग्नौ दृष्ट्वा च दुष्टशीलौ गदस्मृती देवल उवाच युवा वृक्षसमौ दृष्टौ निर्लज्जौ द्रव्यदर्पितौ तस्मात् वृक्षौ दु भूयास्तां वर्षाणां शतकं भुवि द्वापरान्ते भारते रमाधुरे व्रजमण्डले कलिन्दनन्दिनीतीरे महावनसमीपतः परिपूर्णतमं साक्षात्कृष्णं दामोदरं हरिं गोलोकनाथं तम् दृष्ट्वा पूर्वरूपो भविष्यधः युद्धं देवलशापेन वृक्षत्वम् प्रापितौ नृपनलकूबरमणिग्रीवौ श्रीकृष्णेन विमोचितौ यदि श्रीगर्गसंहितायां कोलोकखण्डे नारदबहुलाश्वसंवादे यमलार्जुनभङ्गो नाम एकोनविंशोऽध्यायः ओम् अध्यायम् ट्वेन्टि श्रीनारद उवाच ये कदा कृष्णचन्द्रस्य दर्शनार्थम् परस्य च दुर्वासामुनिशार्दूलो व्रजमण्डलमाययौ कालिन्दीनिकटे पुण्ये सैकदे रमणस्थले महावनसमीपे च कृष्णमाराधदर्शः श्रीमन्मदनगोपालं लुठन्तं बालकैः सह परस्परं प्रयुध्यन्तं बालकेलिं मनोहरं धूलिधूसरसर्वाङ्गं वक्रकेशं दिगम्बरं धावन्तं बालकैः सार्धं हरिं वीक्ष्य स विस्मितः श्रीमुनिरुवाच स ईश्वरोऽयं भगवान् कथं बालायिर्लुढन्भुवि अयं तु नन्दपुत्रोऽस्ति न श्रीकृष्णः परात्परः श्रीनारद उवाज युद्धं मोहं गदे तत्र दुर्वाससि महामुनौ क्रीडन् कृष्णस्तत्समीपे तदंगे ह्यागदस्वयम् पुनर्विनिर्गतो ह्यङ्कात् बालसिंहावलोकनः हसन् कलं ब्रुवन् कृष्णः सम्मुखः पुनरागतः हसतस्तस्य ददर्शान्यं महालोकं सारण्यम् जनवर्जितम् अरण्ये शुभ्रमं तत्र कुत तदैवा जगरेणापि निकीर्णो भून्महामुनिः ब्रह्माण्डं तत्र ददृश्ये सलोकं सविलम्बरम् ब्रह्मद्वीपेषु समुनिस्थितो भूस्पर्वते स्थिते तपस्ततापवर्षाणां शतकोटीप्रभुं भजन् काख्ये प्रलये प्राप्ते विश्वभयङ्करे आगच्छन्तः समुद्रास्ते प्लावयन्दोधरातलं वहंस्तेषु च दुर्वासा नप्रापान्तं जलस्य च व्यधिदेयुगसाहस्रे मग्नो भूद्विगतस्मृतिः पुनर्जलेषु विचरन्नण्डं मन्यं ददर्शः तच्छिद्रे च प्रविष्टोऽसौ दिव्यां सृष्टिं गतस्तधः तडं ड मूर्ध्निलोकेषु चरन् एवं छिद्रं तत्र वीक्ष्य प्राविशत्सहरिं स्मरन् बहिर्विनिर्गतो ह्यण्डा ददर्शाशु महाजलम् तस्मिन् जले दुलक्ष्यन्ते कोडिशो ह्यण्डराशयः तदो मुनिर्जलम् पश्यन् ददर्श विरजाम् तत्पारं प्रगत प्रगतः गोलोकं गोलोकम् प्राविशन् मुनिः वृन्दावनम् गोवर्धनम् यमुनाफुलिनम् शुभम् दृष्ट्वा प्रसन्नः स मुनिर्निकुञ्जम् गोपगोपीगणवृदं गवां कोटिभिरन्वितम् असङ्ख्यकोटिमार्ताण्डज्योतिषामण्डले तदः दिव्यलक्षदले पद्मे स्थितं राधापदिं हरिं परिपूर्णतमं साक्षात् श्रीकृष्णं पुरुषोत्तमम् असङ्ख्यब्रह्माण्डपदिं गोलोकं स्वन्ददर्शः श्रीकृष्णास्यापिह सदप्रविष्टस्तन्मुखे मुनिः पुनर्विनिर्गतो पश्यद्बालं श्रीनन्दनंन्दनं कालिन्दीनिकटे पुण्ये सैकदे रमणस्थले बालकैः सहिदम् कृष्णं विचरन्तं महावने तदा मुनिश्च दुर्वासात् ज्ञात्वा कृष्णं परात्परम् श्रीनन्दनन्दनं नत्वा नत्वा प्राहकृताञ्जलिः मुनिरुवाच बालं नवनी बालं नवीनशदपत्रविशालनेत्रम् बिम्बाधरम् सजलमेघरुजिम् मनोज्ञं मन्दस्मिदं मधुरसुन्दर मन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि मञ्जीरनोपुररणनवरत्नकाञ्जी श्रीहारकेसरिनखप्रदियन्त्रसङ्घं दृष्ट्यार्तिहारमषिबिन्दुविराजमानं वन्दे कलिन्दतनुजातडबालकेलिं पूर्णेन्दुसुन्दरमुखोपरि कुञ्जिताग्राह केशानवीनखननीलनिभास्पुरन्दी राजन्द आनदशिरकुमुदस्य यस्य नन्दात्मजाय सबलाय नमो नमस्ते श्रीनन्दनन्दनस्तोत्रम् प्रादरुद्धाय यः पठेद तन्नेत्रगोचरो यादिसानन्दं नन्दनन्दनः श्रीनारद उवाच इति प्रणम्य श्रीकृष्णं दुर्वासा मुनिसप्तमः म् ध्यायन् प्रचपन् प्रागाद्बदर्याश्रममुत्तमम् युद्धम् देवर्षिवर्येण नारदेन महात्मना कथितं कृष्णचरिदम् बहुलाश्वायधिमधे मयाधे कथितं ब्रह्मण्यस्य कलिमलापखम् चतुष्पदार्थदम् दिव्यम् किं भूय श्रोतुमिच्छसि श्रीशौनक उवाच बहुलाश्वो मैथिलेन्द्र किं पप्रच महामुनिम् नारदं ज्ञानदं शान्तं तन्मे ब्रूहितपोधन श्रीगर्ग उवाच नारदं ज्ञानदं नत्वामानदो मैथिलो नृपः पुनः पप्रचकृष्णस्य चरितं मङ्गलायनं श्रीबहुलाश्व उवाच श्रीकृष्णो भगवान् साक्षात् परमानन्दविग्रहम् परम् चकार किम् चित्रम् चरित्रम् वद मे प्रभो पूर्वावतारैश्चरितम् कृतम् वै मङ्गलायनम् अपरम् किन्तु कृष्णस्य पवित्रम् चरितम् परम् श्रीनारद उवाच साधु साधु त्वया पृष्ठम् चरित्रम् मङ्गलम् हरेः तत्तेहम् सम्प्रवक्ष्यामि च यद्यशः गोलोकखण्डं च गुह्यम् परममद्भुतम् श्रीकृष्णेन प्रकथितम् गोलोके रासमण्डले निकुञ्जे राधिकायै च राधामह्यम् ददाविधम् मया तुभ्यम् श्रावितम् च दत्तम् सर्वार्थदम् परम् इदम् पठित्वा विप्रस्तु सर्वशास्त्रार्थगो श्रुत्वेदं चक्रवर्ती स्याक्षत्रि यश्चण्डविक्रमः वैश्यो निधिपतिर्भूया चूद्रो मुच्यदबन्धनाद निष्कामो योऽपि जगति जीवन्मुक्तः सजायते यो नित्यं पठति सम्यग्भक्तिभावसमन्वितः स गच्छत् कृष्णचन्द्रस्य गोलोकं प्रकृते परम् इति श्री गर्गसंहितायां गोलोकखण्डे नारद बहुलाश्वसंवादे भगवज्जन्मवर्णनं दुर्वास सो मायादर्शनं श्रीनन्दनन्दनस्तोत्रवर्णनं नाम विंशोऽध्यायः ओ, ओ.